ॐ नमो भगवते वासुदेवाय ॐ श्रीमद्भागवत्महापुराणम् एकादशस्कन्धः अथ प्रथमोऽध्यायः यद्वंशकोरिशिंकशाप् श्रीवादरायणीरुवाच कृत्वा दैत्यवधं कृष्णः स रामो यदुर्भिवृतः भुवौवतारि यद्भारं जविष्ठं जनयन् कलिं ये कोपि तासु बहू पाण्डुसुता सपत्न्यै दुर्दोतहेलनकं च ग्रहणादिभिस्तान् कृत्वा निमित्तमितरेतरतसमेतान् हत्वा नृपान्निर्हरत् क्षितिभारमीशः भूभारराजपृतनायदुभिर्निरस्य गुप्तैष्वबाहुभिरचिन्तयदप्रमेयः मन्ये वने नर्तु गतोऽप्यगतं हि भारं यद्यादवं कुलमहो अविशयमास्ते नैवान्यतपरिभवोश्च भवेत् कथञ्चिन् मत्संशयस्य विभुवोन्नहनश्च नित्यम् अन्तकलिं यदि कुलस्य विधाय वेणु तन्दम्बस्य बह्निमिव शान्तिमुपेमिधाम एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः सापव्याजेन विप्राणां सञ्जह्रेष्वकुलं विभू स्वमृत्यालोकलावण्यनिर्मुक्त्यालोचनं नृणां गिर्भिस्ता चित्तं पदैस्तानि क्रियाः आच्छिद्यकीर्तिं शुश्लोकां तमोनया तन्तरिष्यन्ति त्यगा पदमेश्वरः राजुवाच ब्रह्मण्यानां वदान्यानमं नित्यं वृद्धोपसेविनां विप्रशाप कथम् अभून्विष्णीनां कृष्णचेतसां यन्निमित्तसवैशापो यादृशो द्विजसत्तमं कथमेकात्मनां भेद एतत्सर्वं वदस्व मे श्रीशुकुवाच विभ्रद् वपु सकलसुन्दरसन्निवेशं कर्माचरन् भुवि सुमङ्गलमाप्तकामः आस्थाय धाम रममाण उदारकीर्तिः सङ्हरतु मे क्षतकुलं स्थितकृत्य शेषः कर्माणि पुण्यनिवहानि सुमङ्गलानि गायज्जगत्कलिमलापहराणि कृत्वा कालात्मना निवसता यद् देवगेः पिण्डारकं शमगमन्मुनयोनुशिष्टाः विश्वामित्रोषितकर्णो दुर्वासा भृगुरङ्गिराः कस्य पो वामदेवोत्रिवशिष्टो नारदादयः क्रीडन्तस्तानुप्रव्रज्य कुमारा यजु नन्दनाः उपसंगृह्य प्रपक्षविनीतं विनीतवत् देवेशयित्वा श्रिवेशैः साम्बं जाम्बवती सुतम् एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणां प्रष्टुं विलज्जतिं साक्षां प्रवृतामोघदर्शनाः रसोष्यन्ति पुत्रकामाक्विंसिन् सन् जनयिष्यति एवं प्रलब्धा मुनियस्तानु च कुपितानुपजनिष्यति वो न मन्दासुसलं मुसलं कुलनाशनम् दच्छुत्वा तेति संत्रस्ता विमुच्य सहसोदरं साम्बस्यादृस्तस्मिन् मुसलं किं कृतं मन्दभाग्यैर किं वदिष्यन्ति नो जनाः इति विफुलिता गेहान्नादाय मुसलं ययुः तज्जोपनीयसदसि परिम्लानमुखश्रियः राज्ञ आवेदयाश्चक्रो सर्वयादौ सन्निधौ श्रुत्वा मोघं विप्रशापं दृष्ट्वा च मुसलं विस्मृताभयसंत्रस्ता बभूर्वुर्द्वारकौकशः तच्चूर्णयित्वा मुसलं यदि राजश आहुकः समुद्रसरले प्रास्यल्लोहं चास्यावशेषितं कश्चिन्मत्योग्रशिल्लोहं चूर्णानि तरलैस्ततः उह्यमानानि वेलायां लग्नान्यासन् मस्यो गृहीतो मत्स्यघ्नैः जाले नान्यै तस्यो दर्गतम लोहं सशल्ये लुब्धकोऽकरोत् भगवान् ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा कर्तुम् नैच्छद् विप्रशापं कालरूप्यन्वमोदत इति श्रीमद्भागवते महापुराणे पारमहिं शयितायाम् एकादश स्कन्धे प्रथमोऽध्यायः